तितमः सर्गः एवम् ब्रुवाणम् जनकः प्रत्युवाच कृताञ्जलिः श्रोतुमर्हसि भद्रन्ते कुलम् नः परिकीर्तितम् प्रदानेहिमुनिःश्रेष्ठकुलम् निरवशेषतः वक्तव्यम् कुलजातेन तन्निबोधमहामते राजा भूत्रिषु लोकेषु विश्रुतस्वेन कर्मणा निमिः परमधर्मात्मा सर्वसत्त्ववताम् वरः तस्य पुत्रोऽथिर्नाम जनको मिथि पुत्रकः प्रथमो जनको राजा जनकादप्युदावसुः उदावसोऽस्तु धर्मात्मा जातो वै नन्दिवर्धनः नन्दिवर्धसुतः शूरः सुकेतुर्नामनामतः सुकेतोरपि धर्मात्मा देवरातो महाबलः देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः बृहद्रथस्य शूरो भून्महावीरः महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः सुधृतेरपि धर्मात्मा धृष्टकेतुः सुधार्मिकः धृष्टकेतोश्च राजर्षेर्हर्यश्व इति विश्रुतः हर्यश्वस्य मरुःपुत्रो मरोः पुत्रः प्रतीन्धकः प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः पुत्रः कीर्तिरथस्यापि देवमेढ इति स्मृतः देवमीढस्य विबुधो विबुधस्य महीध्रकः महीध्रकसुतो राजा कीर्तिरातो महाबलः कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत स्वर्णरोम्णस्तु राजर्षेर्ह्रस्वरोमा व्यजायत तस्य पुत्रद्वयम् राज्ञो धर्मज्ञस्य महात्मनः ज्येष्ठोऽहमनुजो भ्राता मम वीरः कृशध्वजः माम् तु ज्येष्ठम् पिता राज्ये सोऽभिषिच्य पिता मम कृशध्वजम् समावेश्य भारम् मयि वनम् वृद्धे पितरि स्वर्या ते धर्मेणधुरमावहम् भ्रातरम् देव सङ्काशम् स्नेहात् पश्यन् कुशध्वजम् सुधन् वा वीर्यवान् राजा मिथिलामवरोधकः स च मे प्रेषयामास पद्माक्षी मह्यम् वैदीयतामिति तस्याप्रदानान् महर्षे युद्धमासीन्मया सह राजा सुधन् तु मया रणे निहत्यतम् निःश्रेष्ठसुधन्वानम् नराधिपम् साङ्काश्ये भ्रातरं शूरमभ्यषिञ्चम् कुशध्वजम् कनीयानेश भ्राता अहम् कनीयाने ज्येष्ठो महामुने ददामि परमप्रीतो वध्वौ ते मुनिपुङ्गवा सीताम् रामाय भद्रन्ते ऊर्मिलाम् लक्ष्मणाय वै वीर्यशुल्काम् अवसुताम् सीताम् सुरसुतोपमाम् द्वितीयामूर्मिलाम् चैव ददामि परमप्रीतो वध्वौ ते मुनिपुङ्गवा रामलक्ष्मणयो राजम् गोदानम् कारय स्वः पितृकार्यम् च भद्रन्ते ततो वैवाहिकम् कुरु मघाह्यद्य महाबाहो तृतीयदिवसे प्रभो फल्गुण्यामुत्तरे राजंस्तस्मिन् वैवाहिकम् कुरु रामलक्ष्मणयोरर्थे दानम् कार्यम् सुखोदयम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकार्ये बालकाण्डे एकसप्ततितमः